अथ पञ्चमः सर्गः ततः स मध्यङ्गतमंशुमन्तम् ज्योत्स्नावितानम् मुहुरुद्वमन्तम् ददर्श धीमान् या भाधि लक्ष्मीर्भुवि मन्दरस्था यथा प्रदोषेषु च सागरस्था तथैवतो येषु च पुष्करस्था रराजसा रा चारु निशाकरस्था हंसो यथा राजत पञ्जरस्थः सिंहो यथा मन्दर कन्दरस्थः वीरो यथा गर्वित कुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः स्थितः ककुद्मा निवतीक्ष्ण शृङ्गो महाचल श्मेत इवोर्ध्व शृङ्गः हस्तीवजाम्बूनद बद्ध शृङ्गो विभावि भगवान् छशाङ्कः शिलातलम् प्राप्य यथा मृगेन्द्रो महारणम् प्राप्य यथा गजेन्द्रः राज्यम् समासाद्य यथा नरेन्द्रस्तथा प्रकाशो वीरराजचन्द्रः प्रकाशचन्द्रोदय नष्ट दोषः प्रवृद्ध रक्षः पिशिताश दोषः रामाभिरामेरित चित्त दोष स्वर्ग प्रकाशो भगवान् प्रदोषः तन्त्रीश्वराः कर्ण सुखाः प्रवृत्ताः स्वपन्ति नार्यः पतिभिः सुवृत्ताः नक्तञ्चराश्चापि तथा प्रवृत्ता विहर्तुमत्यद्भुत रौद्र वृत्ताः मत्त प्रमत्तानि समाकुलानि रथाश्व भद्रासन सङ्कुलानि वीरश्रिया चापि समाकुलानि ददर्श धीमांस कपिः कुलानि परस्परम् चाधिकमाक्षिपन्ति भुजांश्च चा पीनानधि विक्षिपन्ति मत्त प्रलापानधि विक्षिपन्ति मत्तानि चान्योन्यमधिक्षिपन्ति रक्षांसि वक्षांसि च विक्षिपन्ति गात्राणि कान्तासु च विक्षिपन्ति रूपाणि चित्राणि च विक्षिपन्ति दृढानि चापानि च चा विक्षिपन्ति ददर्शकान्ताश्च समालभन्त्यस्तथा परास्तत्र पुनः स्वपन्त्यः सुरूपवक्त्राश्च तथा हसन्त्यः क्रुद्धाः पराश्चापि विनिश्वसन्त्यः महागजैश्चापि तथा न दद्भिः तथा सुसद्भिः राजवीरैश्च विनिश्वसद्भिः हृदा भुजङ्गैरिव बुद्धिः प्रधानान् रुचिराभिधानान् संश्रद्दधानाम् जगतः प्रधानान् नानाविधानान् रुचिराभिधानान् ददर्श तस्याम् पुर्यातुधानान् आनन्द दृष्ट्वा सचतान्स्वरूपान् नानागुणानात्मगुणानुरूपान् विद्योतमानान् स च तान् सुरूपान् ददर्श कांश्चिच्च पुनर्विरूपान् ततो वरार्हासु विशुद्ध भावास्तेषाम् स्त्रियस्तत्र महानुभावाः प्रियेषु पानेषु च सक्त भावाददर्श तारा इव सुस्वभावाः स्त्रियोज्ज्वलन्ती स्त्रपयोपगूढा निशीथ काले रमणोपगूढाः ददर्श काश्चित् प्रमदोपगूढा यथा विहङ्गा विहगोपगूढाः अन्याव पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केश सुखोपविष्टाः भर्तुः परा धर्म परा निविष्टा ददर्श धीमान् मदनोपविष्टाः अपरावृताः काश्चन राजिवर्णाः काश्चित् पराध्यास्तपनीयवर्णाः पुनश्च काश्चिच्छश लक्ष्मवर्णाः ततः प्रियान् प्राप्य मनोऽभिरामान् सुप्रीतियुक्तास्तु मनोभिरामाः गृहेषु हृष्टाः परमाभिरामा हरिप्रवीरः स ददर्श रामाः चन्द्र प्रकाशाश्च हि वक्रमाला वक्राः सु पक्ष्माश्च सुनेत्र मालाः विभूषणानाम् च नत्वे परमाभिजातां परमाभिजाताम् पथि लतां राजकुले प्रजाताम् लताम् प्रफुल्लाविव साधु जाताम् ददर्श तन्वीम् मनसाभिजाता सनातने वर्त्मनि सन्निविष्टाम् रामे क्षणी स्त्रीभ्यः पराभ्यश्च सदाभिशिष्टा उष्दिताकी पुरा बराहोत्तम निष्क सुजात पक्ष अरक्त कंठी बले प्रनृत्ता अव्यक्तरेखा चंद्रलेखा पां सु प्रदिधा व हेमरेखा क्षत प्ररूाव वर्ण रेखा वायु प्रभुना वेघरेखा सीतामपश्यन्मनुजेश्वरस्य रामस्य पत्नीम् वदताम्बरस्य बभूव दुःखोऽपहतश्चिरस्य प्लवङ्गमो मन्द इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चमः